नारायणीयं दशकं सिक्स्टिफैव् मीटर् वसन्ततिलकम् गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमध, साधयितुं प्रवृत्तः सान्द्रेण चान्द्रमहः सा शिशिरीकृताशे प्रापूरयो मुरलीकाम् यमुना वनान्ते सम्मूर्च्छनाभिरुदितस्वरमण्डलाभि सम्मूर्च्छयन्तमखिलम् भुवनान्तरालम् त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यस्तत्तादृशम् कमपि चित्तविमोहमापुः तागेः कृत्यनिरतास्तनयप्रसक्ता कान्तोपसेवनपराश्च सरोरुहाख्यः हा। सर्वं विसृज्य मुरलीरवमोहितास्ते कान्धारदेशमयि कान्ततनो समेताः काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्यकृदार्थभूषाः त्वमागदा ननु तथैव विभूषि ताभ्यस्ता येव संरुचिरे तव काञ्चीं च कण्ठभुवि देवसमागदात्वाम् आत्वमात्मजघनस्य मुकुन्त तुभ्यं व्यक्तं बभाष इव विशेषाद काचित्कुजे पुनरसज्जिद कंचु का व्यामोह विधये निपम धरेव कलशीधरवि गृहा किल निमार देव देवृद सुदृढं विभाव्य देहं विधूय परचित्सुखरूपमेकं त्वमाविशन् परमिमा ननु धन्यधन्याः जारात्मना न परमात्मतया स्मरन्ध्यो नार्यो गदाः परमहंसगतिं क्षणेन तत्वाम् तत्त्वां प्रकाशपरमात्म तनुं कथञ्चिच्चित्ते वहन्नमृदमश्रममश्नुवीय अभ्यागदाभिरभिदो व्रजसुन्दरीभिर्मुग्धस्मिदार्द्रवदनकरुणावलोकी निःसीमकान्ति जलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्यहरमे परमेश रोगान् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द